ीताण्डवस्तोत्रम् नमस्कृत्य रामं महादेवदेवं भवानी कटाक्षे क्षणालं गजालम् लालोकलोलं महादृत्यलीलं भजे पार्वतीशं महाताण्डवेशम् भवान्तं भजे तं हृदन्ते महान्तं भवाब्धिं तरन्तेन्दुकुन्दावभासम् तमीशं रमेशः चिताङ्घ्रिद्वयाब्जं भजे पार्वतीशं महाताण्डवेशम् जटाजूडसोमं ललाटाक्षभीमं नताचार्यवामं वामं सदा वाम भामम् हृदानम् धरामम् भजे पार्वतीशं महाताण्डवेशम् धराशीशवागीश नागेशमुख्यैः सुरैः सेवितम् तालवीनाधिहस्तैः वराघात सङ्घात संघृष्ट दैत्यम् भजे पार्वतीशं महाताण्डवेशम् ो पुरद्वन्द्वहारि स्वकीयाङ्घ्रि पद्मद्वयाम्भोरुहा पूर्णविश्वम् नमन्मध्य साचीकृतस्वाङ्घ्रि पद्मं भजे पार्वतीशं महाताण्डवेशम् शिवाशेष बन्धो कृपापूर्ण सिन्धो शिवानन्द सन्दोगसन्धानबन्धो भजे पार्वतीशं महाताण्डवेशम् सौवर्णसूत्रं प्रलम्ब प्रकीर्णोरुघण्डानिनादम् महासिंहनादं प्रभिन्नाब्दजालं भजे पार्वतीशं महाताण्डवेशम् बृहमद्बाहुदण्डं गदा पूर्णरत्नं रभो महाहिशभूषं सुरेशं महेशं भजे पार्वतीशं महाताण्डवेशम् महानृत्यसं जातभीमाट्टहासं महायोगि हृत्पद्मकोशावभासम् महानागयज्ञोपवीतावभासं महा भजे पार्वतीशं महाताण्डवेशम् भवानीश भूतेश भर्गासुवारे भवारे पुरारे सुरेशार्चितान्ध्रे न जानाति युष्मत्स्वरूपं जनोऽयं भजे पार्वतीशं महाताण्डवेशम् मुकुन्दाब्ज हस्तोल्लसन्त्रासनादं न मद्येव बृन्दं सुहृद्योगिवृन्दम् रसत्कुन्ददन्तं भजे पार्वतीशं महाताण्डवेशम् जडाजूड गङ्गातरङ्गोर्मिचञ्चत् सहस्रांशुजातावृताकाशमीशम् शरच्चन्द्रहासं सुकर्पूरभासं भजे पार्वतीशं महाताण्डवेशम् स्फुरन्मुद्रिका रत्नराजत् कराङ्क्रिम्रणत् स्फुरन्तम् नदन्तम् महान्तम् दिगन्तं वसन्तम् महाश्चर्यवासो नितान्तम् अनन्तं भवान्तं भवाणी हृदन्तम् भजे पार्वतीशं महाताण्डवेशम् महादेव देवादिदेवेशम्भो भवन्तं विना देवमन्यं न जाने क्षणाराधने नाशुतोषं महेशं भजे पार्वतीशं महाताण्डवेशम् नमस्ते नमस्ते शिवानन्दकीर्ते नमस्ते नमस्ते भवानन्दमूर्ते नमस्ते नमस्ते शरण्यैकमूर्ते नमस्ते नमस्ताण्डवाडम्बराय नमस्ते नमस्ते जगज्जन्मकर्त्रे नमस्ते नमस्ते नमःपालनेत्र नमस्ते नमस्ते हरायागहर्त्रे नमस्ते नमस्ताण्डवाडम्बराय नमः पार्वती प्राणनाथाय तुभ्यम् नमः सर्वलोकैकनाथायतुभ्यम् नमो विष्णुहृत्पद्मकोषाय तुभ्यम् नमस्ते नमस्ताण्डवाडम्बराय नमो दिव्यकैलासवासायतुभ्यम् नमो दिव्य रत्नाभिभूषाय नमः सर्वयज्ञोपवीताय तुभ्यम् नमस्ते नमस्ते नमः नमः शृं कवज्राङ्किताय नमो भक्तलोकैकबालाय तुभ्यम् इदं दुर्झटे स्ताण्डवस्तोत्र राजं प्रभाते भटन्ति प्रसन्नाञ्जनेकः सुरेन्द्रादिभोगानि हैवास्य भुक्त्वा तदन्ते लभन्ते शिवानन्दलोकम्